अर्घरास्तोत्रम् ॐ अस्य श्री अर्गरास्तोत्रमन्त्रस्य विष्णुः ऋषिः अनुष्टुप्छन्दः श्रीमहालक्ष्मीरदेवता श्रीजगदम्बाप्रीतये सप्तसतीपाठङ्गत्वेन जपे विनियोगः ॐ नमःिकायै मार्कण्डे उवाच ञ्जयन्ति मङ्गलाकाली भद्रकालीकपालिनी दुर्गाक्षमाशिवाधात्रे स्वाहाश्वधा नमोस्तुते जय त्वं देवि चामुण्डे जयभूतार्तिहारिणि जय सर्वगते देवी कालरात्री नमोस्तुते दे। मधुकैटभविद्राविविधात्रि वरदे नमः रूपं देहि जयं देहि यशो देहि दिसो जहि महिषासुणासि भक्तानां सुखदे नमः रूपं देहि जयं देहि यशो देहि द्विसो जहि रक्तबीजवधे देवि चण्डमण्डविनाशिनि रूपं देहि जयं देहि देही देही। यशो देहि दिसोजहि शुम्भस्यैव निशुम्भस्य धुम्राक्षंस्य सुमर्धिरि रूपं देहि जयं देहि यशो दिसोजहि वन्दिताग्नियुगे देवि सर्वसौभाग्यदायिनी रूपं देहि जयं देहि यशो दिसोजहि अचिन्त्यरूपचरिते सर्वशत्रुविनाशिनि रूपं देहि जयं देहि यशो देहि दिशोजहि न तेभ्य सर्वदा भक्त्या चण्डिके दुरितापहे रूपं देहि जयं देहि यशो देहि दिशोजहि तु अद्भ्यो भक्तिपूर्वं रूपं देहि जयं देहि यशो देहि दिसोजहि चण्डिके सततं जे त्वाम् अर्चयन्तीह भक्तितः रूपं देहि जयं देहि यशो देहि दिसोजहि देहि सौभाग्यमारोग्यं देहि मे परमं सुखं रूपं देहि जयं देहि यशो देहि दिसोजहि विधेहि द्विशतां नाशम् विधेहि बलमुच्चकै रूपं देहि जयं देहि यशो देहि दिसोजहि विधेहि देवि कल्याणं विधेहि परमांशियं रूपं देहि जयं देहि यशो देहि दिसोजहि सुराशिरशिरोरत्न निघृष्टचरणेऽम्बिके रूपं देहि जयं देहि यशो देहि द्विसोजहि विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तं जनं कुरु रूपं देहि जयं देहि यशो देहि दिसोजहि प्रचण्डदैत्यदर्पघ्ने चण्डिके प्रणतायमि रूपं देहि जयं देहि यशो देहि चतुर्भुजे चतुर्वक्त्र संस्कृते परमेश्वरी रूपं देहि जयं देहि यशो देहि दिशो जहि कृष्णेन संस्कृते देवि सत्वद्भक्त्या सदाम्बिके रूपं देहि जयं देहि यशो देहि दिशोजहि हिमाचलसुतानाथ संस्कृते परमेश्वरी रूपं देहि जयं देहि यशो देहि ऋषोजहि इन्द्राणीपतिसद्भाव पूजते परमेश्वरी रूपं देहि जयं देहि यशो देहि ऋषोजहि देवि प्रचण्डतोदण्ड दैत्यदर्पविनाशिनि रूपं देहि जयं देहि यशो देहि ऋषोजहि देवि भक्तजनोद्धाव दत्तानन्दोदयम्बिके रूपं देहि जयं देहि यशो देहि द्विषुजहि पत्नीं मनोरमां देहि मनोवित्तानुसारिणीं तारिणीं दीर्घसंसार सागरस्य कुलोद्भवां इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नर स तु सप्तशतीं सङ्ख्या वरमाप्नोति सम्पदाम् ॐ श्रीदुर्गायै नमः